अथ षष्टितमः सर्गः ततो भूतोपसृष्टेव वेपमाना पुनः पुनः धरण्याम् गतसत्त्वेव कौसल्यासूतमब्रवीत् नयमान्यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः तान्विना क्षणमप्यद्य जीवितुम् निवर्तय रथम् शीघ्रम् दण्डकान् अथ तान्नानुगच्छामि गमिष्यामि यमक्षयम् बाष्पवेगोपहतया सवाचा सज्जमानया इदमाश्वासयन् देवीम् सूतः प्राञ्जलिरब्रवीत् त्यजशोकम् च मोहम् च सम्भ्रमम् तथा व्यवधूय च सन्तापम् वने राघवः लक्ष्मणश्चापि रामस्य पादौ परिचरन् वने आराधयत् धर्मज्ञः परलोकम् जितेन्द्रियः विजनेऽपि सीता वासं प्राप्य गृहेष्विव विस्रम्भम् लभते भीता रामे विन्यस्तमानसा नास्या दैन्यम् कृतं किञ्चित् सुसूक्ष्ममपि लक्ष्यते उचितेव प्रवासानाम् वैदेही प्रतिभाति मे यथा स्मरमते पुरा तथैव रमते सीता निर्जनेषु वनेष्वपि बाले वरमते सीता बालचन्द्रनि भानना रामा रामे ह्य दीनात्मा विजनेऽपि वने सति तद्गतम् हृदयम् यस्यास्तदधीनम् च जीवितम् भवेदस्य रामहीना तथा वनम् परिपृच्छति वैदेही ग्रामांश्च नगराणि च गतिम् दृष्ट्वा नदीनाम् च पादपान् विविधानपि रामम् वा वापि दृष्ट्वा जानाति जानकी अयोध्याक्रोशमात्रे तु विहारमिव साश्रिता इदमेव स्मराम्यस्याः सहसैवोपजल्पितम् कैकेयी संश्रितम् जल्पम् नेदानीम् प्रतिभाति तु तद्वाक्यम् प्रमादात् ह्लादनम् वचनम् सूतो देव्या अध्वनावात वेगेन अध्वनावातवेगेन सम्भ्रमेणातपेन च न विगच्छति वैदेह्याश्चन्द्रांशुसदृशी प्रभा सदृशं शतपत्रस्य पूर्णचन्द्रोपमप्रभम् वदनम् तद्वदान्याया वैदेह्यान विकम्पते अलक्तरस रक्ताभावलक्तरसवर्जितौ अद्यापि चरणौ तस्याः पद्मकोशसमप्रभौ नू पुरोत्कृष्टलीलेव खेलम् गच्छति भामिनी इदानीमपि वैदेही तद्रागान्यस्तभूषणा गजम् वा वीक्ष्य सिंहम् वा व्याघ्रम् वा वनमाश्रिता नाहारयति सन्त्रासम् बाहू रामस्य संश्रिता न शोच्यास्तेन ना शोच्यो नापि जनाधिपः इदम् हि चरितम् लोके प्रतिष्ठास्यति शाश्वतम् विधूय शोकम् परिहृष्टमानसा महर्षि पति सुव्यवस्थिता वणेरता वन्यफला जनाः पितुः शुभाम् प्रतिज्ञाम् प्रति तथापि सूतेन सुयुक्तवादिना निवार्यमाणा सुतशोकर्षिता न चैव देवी विररामकूजितात् प्रियेति पुत्रेति च राघवेति च इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षष्टितमः सर्गः